गर्गसंहिता खण्डम् शवन् विश्वजित्खण्डम् अध्यायम् फोर्टिफैव् श्रीनारद उवाच भैरवाद्यारागगणा पुरप्राप्ता हरे प्रभोः रूपानुरूपावयवाम् तनुम् दृष्ट्वादिहर्षिताः यत्र यत्र च वै दृष्टिप्राप्ता हरेस्तनौ तत्र स्थिता च निर्गन्तुं लावण्यान्न शशाकः अहो श्रीकृष्णचन्द्रस्य रूपमत्यद्भुतं हरेः दृष्टोपवर्णनं तस्य चक्रुस्तेऽपि पृथक् पृथक् भैरव उवाच भज हरिजानुद्वयमिति लक्ष्मीः भजति सदाङ्गे कमलकराभ्याम् मेखमल्लार उवाच ऊरूविष्णोरम्भाखण्डौ हेमस्तम्भौ ज्याये वन्द्यौ ओजपूर्णौ शोभायुक्तौ वस्त्रपीधौ कृष्णस्योभौ दीपक उवाच सकलसुखकरं कनकरुचिधरं प्रथितहरिपदं भजदकडितले मालकोश उवाच कडीकेशवाद्याहरेरस्ति तत्र नृणाम्नेत्रयोर्दृष्टिमानम् हरन्दी परम् कम्पिता मन्दगच्छसमीरैः सुनम्रेण सा सर्वचेदो हरेद्धम् श्रीराग उवाच नाभेसरपुष्करकुण्डवच्च वल्यूर्मि तल्लस्रिव्यूर्मि मनोहरम् पदम् रोमा वलिप्रोच्छितकामकानम् भजामि नित्यम् हृदिराधिकापदेः हिण्डोल उवाच अक्षरपन्दि किम्पङ्घ्रिपिप्पलपत्रे मोहनमाला किं कमले यच्छामलरेखा किं ह्युदरे रोमावलिरेखा भैरवरागिण्य ऊजुः पीतपटं यत्कृष्ण हरेरिन्द्रधनुर्वद्दीप्तियुदम् काञ्चनशिल्पैश्चारुचिदभजनॄणाम् दुःखहरम् भैरवपुत्र ऊजुः चतुःसमुद्रा इव विश्वपूरका आनन्दतायेव चतुःपदार्थवद ते मल्लार भूधारणदिग्गजा इव मेकमल्लाररागिण्यवूचुः अरुणबिम्बफलद्युदिमण्डितम् भजहरेरधरं मधुरम् मनः नवजपादल मल्लस्सु विग्रहं सकलवल्लभूमिपदे प्रभोः मेघमल्लारभुद्राौजुः कर्पूरकेतकुमौक्तिककीरकाणां श्रीखण्डचन्द्र चपलामृतमल्लिकानं तेषां रुचेष्टपरिभावमकारि पूर्वम् यादन्तपङ्क्तिरमलास्मरदाम्बरस्य दीपकरागिण्य ऊजुः नयनयुगलजातम् पादुनोहर्निशम् मदनशरपरोक्षम् सर्वलावण्यदीक्षम् परिहृदसुरवृक्षम् कोडिशो लक्षलक्षम् निजनकृतरक्षम् दानदक्षम् कडाक्षम् दीपकपुत्र ऊजुः किं वा कुलिङ्गयुगलं नवपद्ममध्ये दुःखक्षायायवसतां निशितासि युग्मं जैत्रं धनुर्जयति किं मकरध्वजस्य भ्रूमण्डलं किमधचन्द्रमुखे परस्य मालकोश रागिण्य उवोजुः परिनृत्यधि इन्दुमण्डले फणिपत्न्याविवलोलकुण्डले कमले मकरन्द निर्भरे भ्रमरालीव सुगण्डमण्डले मालवचपुत्रौजुः रविरेवखमण्डले किमु यदु भर्तृस्त्वधवाघने तडिद अधितिष्ठदिगण्डमण्डलं द्विदिखण्डं कलधौदकुण्डलं श्रीरागिण्यौजुः कलिङ्गयो कञ्चनयो किलाराधापद्धत्यां युद्धमभूदलीनां तेषां गदकिर उषप्रभुल्ले चकास्ति पद्मे ऋण बिम्बलेप्सुः श्रीरागपुत्रावुजुः परिकरीकृतपीतपटं हरिंशिखिकिरीडनरी कृतकन्धरम् लगुडवेणुकरं चलकुण्डलं पडुधरं न दवेषधरं भजेर् हिण्डोलरागण्य ऊजुः अधसि कुसुमोपमेयकान्त्येर्यमुनाकुलकदाम्ब मध्यवर्जीर्नभकोपवधू विहारशाली वनमालीविदनो दुमङ्गलानि हिण्डोलपुत्र ऊजुः अरे मत्समपादगी नास्ति भूमौ तथा त्वत्समो नास्ति पापाबहारि दिदित्वाम् च मत्वा जगन्नाथदेवम् यथेच्छा भवेत्ते तथा माम् कुरुत्वम् श्रीनारद उवाच यदि रागकृतम् ध्यानम् यशृणोति पठेत् सदा तन्नेत्रगोचरे यादि भक्तवत्सलः युद्धं स्वं दर्शनं दत्वा वेदादिभ्यो हरिस्वयं बभूव पश्यतं तेषां दुर्भुजः। कृत्वा दुदर्शनं विष्णोर्गदे देवे गणैः सह सैन्ये सुधम् शम्भरारिं स्थापयित्वा यदुतमं द्वारकाम् स्वां पुरीं गन्तुं मनश्चक्रे परात्परः मञ्जीरखण्डाकलकिङ्गिणीकलम् सुकांस्य पात्रध्वनिना सच सुग्रीवमुख्यैः स च चञ्चलाश्वैर्नियोजितैर्मैथिलदारुगेण युगेन सद्रत्नमदाश्रुतिस्वनैः प्रपञ्च नैजगरुडध्वजेन विहायताम् वेदपुरीं परात्मा ययौ यादववृन्दमण्डिताम् यदि श्रीगर्गसंहितायां श्रीविश्वजिद्खण्डे श्रीनारदबहुलाश्वसंवादे श्रीकृष्णध्यानवर्णनं नाम पञ्चचत्वारिंशोऽध्यायः ओक्स् अथ कृष्णे भगवति पुरीं द्वारवतीं गदे प्रद्युम्नसैनिकै सार्धं नदं कामदुःखं ययौ शतयोजनविस्तीर्णा गन्धर्वाणाम् मनोहरा वसन्तमालति नाम्ना हेमरत्नमयी पुरी येला लवङ्गलतिकाजालैर्येला काश्मीरदेशकैः जातिफलादिजावित्री श्रीखण्डपारिजातकैः मत्तालिनादिदा भृङ्गैशब्दिदा चित्रपक्षिभिः गन्धर्वैराजिता भव्यैर्नागैर्भगवदीयथा पतङ्गो नाम तत्रैव गन्धर्वेशो महाबलः करोति राज्यम् सुकृदि शक्रवद्बलपौरुषम् श्रुत्वा प्रद्युम् न मायादम् दिग्दयार्थम् विनिर्गतम् गन्धर्वैरुद्भटैर्युक्तो युद्धम् कर्तुम् मनो दधे रथाश्वगजवीरैश्च गन्धर्वैर्दशकोटिभिः पतङ्ग आगतो आगदो प्रद्युम्नस्यापि सम्मुखे गन्धर्वैर्धुभिः सार्धं कौरं युद्धं बभूव बल्लैर्गधाभि परिकैर्मुद्गरै स्तोमरायुर् मुद्गरै स्तोमरष्टिभिः बाणान्धकारे सञ्जाते पतङ्गोधिरथो बलि धनुष्टङ्का रयन् प्राप्तो जगर्ज खनवद्बली गतो गतां समादाय बलदेवानुजो बली तद्बलं प्रोधयामास वज्रेणेन्द्रो यथा गिरिन् गतस्य गतया केचित् गन्धर्वपदिधारणे रथाश्चूर्णि कृता सर्वे मातङ्गा अश्वारूढा केऽपि पदिधारणमूर्धनि अधोमुखा ऊर्ध्वमुखा गन्धर्वाश्चिन्नबाहवः क्षणमात्रेण तत्सैन्ये रुधिराणाम् नदी ह्यभूद प्रमथाहरमालार्थम् शिरांसि जगृहुर्मृधे सिंहारूढा भद्रकाली डाग्नि शतसंमृदा कपालेनाभिरुधिरम् पिबन्दि दृश्यते मृधे येवम युद्धे गतकृदे गन्धर्वाणां बलायदाम् गन्धर्वेशस्तता प्राप्तो हस्तिलक्षणबलान्विदः गतम् तदाडगदया पदङ्गो हृदि मैथिल गदोऽपिदम् स्वगतया पदङ्गम् हृदि चौजः सा तयोश्च गदया युद्धम् बभूव खडिकाद्वयं द्वे गते चूर्णी बभूवधुः लक्षभारमयीं गुर्वीं गदामादाय सत्वरं गदं तदा शिरसि पदङ्गोरेण दुर्मदः गदाप्रहारेण गदक्षणं मूर्च्छामवापः एवं कृते घोरं रुद्धे पदङ्गेन महात्मना तथैव द्वारका कुर्यास्तेजसङ्घट्टमागदम् दृश्यौर्यादव सर्वे कोडिमार्दण्डसन्निबन् तस्मिं तेजसि गौराङ्गो बलदेवो महाबलः आविर्बभूव सहस भगवान्भक्तवत्सलः गन्धर्वाणाम् बलम् सर्वम् समाकृष्य अलेन वै क्रुद्धो बलो नीलाम्बरो बलिरथान् गजां स्तुरङ्गाश्च वीराश्त्रभृदाम्बराः निपे दुर्युगपत् सर्वे चूर्णिताश्चोपला इव पदङ्गो विरधस्तस्माीदभीदपुरीम् ययौ पुनर्योद्धुम् यादवैश्च सेनाव्यूहम् चकारः शतयोचनविस्तीर्णाम् गन्धर्वाणाम् महापुरीम् वसन्तमालदीम् विचकर्षबलक्रुद्धो न दे कामदुःखे नृप हाहाकारस्तदैवास्यन्नगर्याम् पदित्तैर्गृहे तिर्यक्पोदमिव कूर्णं नगरी वीक्ष्य सत्वरं पतङ्गस्सर्वगन्धर्वैर्हषितः सन् कृदाञ्जलिः कचिद्धेम सुवर्णानां मुक्तातोरणशालिनाम् दशयोजनविस्तीर्णीकृतानां विश्वकर्मणा कामकानां पदाकाभिर्युधानां कुम्भको डिभिः सहस्रार्कप्रकाशानां विमानानां द्विलक्षकं चतुर्लक्षं गवां चैव तुरङ्गाणां दशाद्भुदं ये लालवङ्गकाश्मीरजातिफलबलैः सह सुधाफलानां दिव्यानां कोडिशो भाजनानि च नित्वा बलिं समादाय दत्व नत्वा प्रदर्शितः कृताञ्जलिप्राहबलं बलभद्रप्रसादविद पदंग उवाच राम राममहावीर्य न जाने तव विक्रमं यस्यैकमूर्ध्निलकम् दृश्यते भूमिमण्डलम् देवादिदेव भगवन्कामपाल नमोऽस्तु दे नमो नन्दाय शेषाय साक्षाद् रामाय दे नमः जय जयाच्युतदेव जया परात्परस्वयमनन्ददिगन्धगदश्रुदे सुरमुनीन्द्रफणीन्द्रवराय दे मुसलिने बलिनाई हलिने नमः श्रीनारद उवाच एवं स्तु धदङ्गेन बलभद्रो महाबलः प्रसन्नचेदा गन्धर्वं मा भायिष्टेत्यभयं दधौ स्थापयित्वा बले कार्ष्णीं यादवेश्वरः यादवै प्रस्तुतशीक्रम्पुरीं द्वारवतीं यहौ इति श्रीगर्गसंहितायां श्रीविश्वजित्खण्डे श्रीनारदबकुलाश्वसंवादे वसन्तमालरीकर्षणम् नाम षट्चत्वारिंशोऽध्यायः ओ अध्यायम् फोर्टि सेवेन् श्रीनारद उवाच प्रद्युम्नाथमहावीरो नादयन् जयदुन्दुभिम् यदुभिः सैनिकैः सार्धम् मधुधारातडम् जयौ सुवर्णाद्रितडी वैश्रवसे शुभे सुवर्णवर्णहंसाढ्ये काञ्चनीलधिकावृदे हेमावतीषु द्रोणीषु देवदुर्गसुमैथिलदानवानामगम्यासु गङ्गावतीषु च दानवेभ्यप्रभीतानां क्वचित् स्वर्गात् पलायिनाम् पला निधयो यत्र सन्धिः तत्र शक्रसखो देव आधिपत्याभिरक्षकः श्रुत्वा गतम् च प्रद्युम्नम् युद्धं कर्तुम् मनो दधे प्रद्युम्नप्रक्षितः साक्षादुद्धवो बुद्धिसत्तमः पप्र दृष्टमार्गैश्च जनैस्तस्य पुरम् ययौ नत्वा देवम् शक्रसखम् सभायामुद्धव प्रभुः प्रद्युम् न कथितं प्राकविस्तरान्मन्दं वरः उद्धव उवाच उग्रसेनो यादवेन्द्रो द्वारकेशो नृपेश्वरः जम्बुद्वीपनृपान् जित्वा राजसूयं करिष्यति तेन प्रणोदि द्वजेदुं रुक्मिणीनन्दनो बली जित्वा भारतादीनि कण्डानि स्वस्य ते जसा अद्यैवलावृदम् प्राप्तो जेतुं कार्ष्णिर्मः बलः तस्मै यच्चबलिं शीघ्रं कुलकौशलहेतवे तवे चेद्युद्धं हि भवता राजन् सर्वविदाम्बर शक्रसख उवाच शृणुदूतसदा देवै पूजितोऽहं नरै सिद्धोऽहं वै महावीरो नागलक्षसमो बले अष्टानां लोकपालानामाधिपत्याभिरक्षकः कुबेर इव कोशाढ्यपुरन्दर इवोद्भटः उग्रसेनेनेन दातव्यम् मह्यम् चोपायनम् परम् पुरा तस्मै दास्यामि यदुराजाय भूभृते उद्धव उवाच यथा तिरस्कृतिम् प्राप्त कुबेरो यदुतेजसा यथा शृङ्गारतिलकश्चैत्रदेशिभो बलि शुभाङ्गो हरिवर्षेश उत्तरेशो गुणाकरः यदा दैत्यसखो राजा लङ्गेश्वर राक्षसेश्वरः संवत्सरकेतुमालशगुण्याद्या महासुराः तथा भूतस्त्वम् हि राजन् बलिम् तस्मै प्रदास्यसि श्रीनारद उवाच इत्युद्ध वच श्रुत्वा क्रुद्धचक्रसखो बली उद्धवं प्रत्युवाचादशृणु भागवतोत्तम यावत् बलिं प्रदर्मि तावत् त्वं संस्थितो भव अन्यथा ते सत्यं सत्यं महामदे उद्धव वा उवाच वयं तु पूर्णज्ञानप्रदावराः मच्चिक्षणम् न मन्यन्ते तेषाम् नो मङ्गलम् भवेद् श्रीनारद उवाच एवम् सद्दृष्टरोधेन रोधयामास चोद्धवम् उद्धवम् नागदं राजन् यदुना मनुशोचताम् दिनानि कदिचित्तत्र व्यदीयुस्तमपश्यताम् मन्मुखा तदुपाकर्ण्य प्रद्युम्नो भगवान् हरिः जदुंशक्रसखम् प्रागात्रिपुरम् त्र्यम्बगो यथा यदुभिर्भ्रातृभिः सार्धम् सैन्यपरिवारिदः सुवर्णाद्रिगुहाद्वारा सम्प्राप्तो मकरध्वजः वीरकोदण्डकङ्गारैर् दुन्दुभिध्वनिमिश्रितैः अश्वघेशैर्हस्तिनादैर्विने दुश्च दिश्योदश सैन्यपादरजोभिश्च युयूधे यादवै सह बभूव तु मूलं युद्धम् चादिदं सर्वे मेरुदेवाभयम् प्रापुर्नृपेश्वर अध शक्रसखक्रुद्धो महाबलः अक्षौहिणीभिर्दशभिर्युयुधे यादवैः सह बभूव तुमुलम् युद्धम् देवानां यदुभिः सह प्राकृतप्रलये राजन्नुदधीनाम् ध्वनिर्यधा शस्त्रान्धकारे सञ्जाते सरणोरोहिणी सुधः बलदेवानुजो विरोदं सिदो गजसंस्थितः सर्वेषामग्रदप्राप्तो धनुष्टङ्कारयन्मुहुः तद्बलं प्रोधयामास बाणैको दण्डनिर्गतैः श्री बाणौघैः के जिद्वीरा द्विधा कृताः तिर्यभूतारथा युद्धे निभेदु पदप गजानां भिन्नकुम्भानां मौक्तिकान्यप तंस्तदा <दा212> <vídeo specialized> <thrust> बाणान्धकारे सञ्जाते रात्रौ तारागणा इव संच्छिद्यमानैरश्वैश्च वीरैर्नागैरणाङ्गणम् बभौ भूदगणैर्युक्तम् यथा क्रीडमुमापदेः सारणस्य बलम् दृष्ट्वा सर्वे देवा पलायिताः सम्खिन्नभिन्नकोदण्डा अभिदशीर्नकञ्चुकाः पलायमानं स्वबलं दृष्ट्वा शक्रसखो बलि धनुष्टङ्कारयन् प्राप्तो जगर्जखनवद्बलाद् अर्जुनं दशभिर्बाणैर्विंशत्यभानुमेवजा साम्बं बाणशदैर्युद्धे निरुद्धं च शतैः शरैः द्विशतैश्च गदम् वीरं सहस्रैः शारणं तधा तदा विरोदन्विशक्रसखो बलिः तद्बाणै शरथा वीर बभ्रुमूर्खटिकाद्वयम् चक्रवत्कुम्भकारस्य तदद्भुतमिवा भवद अयाश्च पञ्चताम् प्राप्ता श्रद्धद्बन्धारधा भ्रमाद रथि न खिन्नमनः कदा मृधे स चान्यम् रथमारुह्य धनुश्शक्रसखस्याभि चिच्छेदश भीशरैः द्वाभ्यां सूतं शतैरश्वान् सहस्रैस्तद्रथं शरैः चूर्णयामास राजेन्द्रशाम्भो जाम्बवदी सुधः सखिन्नधन्वा विरथो हताश्वोहदसारथिः नागेन्द्रं मत्तमारुह्य शूलं जग्राकरोषधः विव्याधसाम्बं शूलेन हृदि चक्रसखो बलि तेन खादेन साम्बोऽपि किञ्चिद्व्याकुलमानसः योजने पादविक्षेपं कज्जलाद्रिसमप्रभं चतुर्योजनमुच्चाङ्गं योजनार्धरदद्वयं महच्चित्कारं कुर्वन्तं त्रिशूण्डादण्डमण्डलैः शृङ्खले पादयम् तं तम् तम चतुर्योजनविस्तृतैः गजान् वीडान् मर्दयन्तम् रथान्नश्वानितस्ततः दन्तैपादैर्खादयन्तम् कालान्तगयमोपमम् आगतम् वीक्षणागेन्द्रम् शत्रुणा नोदिदम् परम् विचरन्तम् मृदाद्भीता यदुसेना विदुध्रुगुः गदो गदाम् समादाय बलदेवानुजो बलि जघानतद्गजम् कुम्भे गदया वज्रकल्पया तत भिन्न तत्खादभिन्नकुम्भोगे गजो युद्धे पपादः पक्षो यथा शैलस्तदद्भुदमिवा भवद अद अधशक्रसखो यावद्गदा जग्राहरोषधः तावत्तदाडगदया गदशक्रसखम् हृदि तेन खादेन स गजोपदितो मूर्च्छिदो भवद गतं भुजाभ्यां जगृहे मृधे गदशक्रसखौ युद्धे युयुधादे परस्परं रङ्गे मल्लाविव वन्ये वन्यौ तौ वारणाविव भुजाभ्यां तं समुद्धाप्य तदा जय जय रावो यदु सैन्ये बभूवः जयदुन्दुभयोनेदुप्रशंसुर्मुहुर्जनाः इति श्रीकर्गसंहितायां श्रीविश्वजित्खण्डे श्रीनारदबहुलासंवादे शक्रसखयुद्धं नाम सप्तचत्वारिंशोऽध्यायः ओ अध्यायं फार्टि एय्ट् श्री नारद उवाच स्वपुरे पदिदो परिदो मोर्चाम् गतशक्रसखो भृशम् उत्तस्तौ चक्षणम् तत्र किञ्चिद्व्याकुलमानसः अधकार्ष्णीम् परम् ब्रह्म ज्ञात्वा शक्रसखस्त्वरन् स्वसकाशात् बलं नीत्वा यदूनां च बलं व्ययौ ऐरावद कुलेभाश्च त्रिशुण्डा दण्डदन्तिनः चतुर्दन्ताश्वेदवर्णसहस्राणि मदच्युदः हेमाद्रिप्रभवनागयोजनद्वयविग्रहाः कोडिशपर्वताकार उद्मत्ता पर्वताकरा इव दिव्या स दिव्यगदय कोडिश कोडिशो नृपा सदार्बुदा कौम्भमयाः पराः अयुतानि विमानानां योजनद्वयशालिनां नियुतं कामधेनूनां पारिजातसहस्रकम् करिदन्दखिदकरि का। दन्दखिस्तम्भ हेमरत्नखचित्पदाः मुक्तास्तडागसंवृद्धा गुणयन्त्र स्फुरत्प्रभाः मल्लिका मकरन्दार्द्रा शिरीर्षकुसुमाकुलाः पयः निपाशय्य कोडिशः सोपबर्षणाः वितानानि विचित्राणि भित्तिवस्त्राणि कोडिशः आसनानि मृदुस्पर्श चित्रवर्णानि सर्वशः दीर्घाणि चोपबर्षाणि विश्व कर्म कृतानि च मुक्तस्तपककेमाध्यै कचितानि सहस्रशखा सहस्रशो जवनिका शिबिकाश्चैव कोटिशखा सत्राणां चामराणां च चा दिव्यसिंहासनैः सह व्यजनानां तथा कोडिराज्यश्रीभूषणानि च पीयूषाणां द्रोणकोडिसुधर्मा च सभा तथा एवं सर्वतो भद्र पद्मानीतिसहस्रकम् ईरकाणां च हरितां मुक्तानां च तथैव हि कोमेदानां कोटिभारा नीलकानां तथैव च आदित्यचन्द्रकान्तीनां वैधूर्याणां सहस्रशः श्यमन्तकमणीनां च कोडिभारा समागताः तथा वैपद्मरागाणां भारा विद्यार्बुदं नृपा जाम्बुनदसुवर्णानां भाटकानां तथैव जा सुवर्णाद्रिसुवर्णानां कोडिभारश्च कोडिशख राज्यं नवविधीन् सर्वान् देवानां मैथिलेश्वर अष्टानां लोकपालानामाधिपत्याधिरक्षकः नीतोद्धवं बलिमद्भुतम् कौसल्यभेदवेकार्ष्णिं प्रणनामकृताञ्जलिः तस्मै तुष्टः शम्भरारिप्रददौ रत्नमालिकां संस्थाप्य राज्य तं राजन्येषाहि प्रकृति सदा युद्धं शक्रसखं जित्वा प्रद्युम्नाय बलिं ददौ शिबिराणां समूहो भूदरुणोदा नदीमनून् महा धनखजिद्भिश्च वितानैषदयोजनम् पदत्पदाकैर्दिव्याभैर्भून्यस्त विजयध्वजैः विरेजे शिबिरव्यूहो लहरीभिपयो दधिः आकाशादागतम् तत्र गजारूढम् पुरन्दरम् ससैन्यम् सहस राजन् दुन्दुभिध्वनि संवीक्ष्य वेगतो वीराजगृहशस्त्रसंहितम् जगृहशस्त्रसंहतिम् पुनरिन्द्रम् च तम् ज्ञात्वा बभू उर्घर्षिता नृपाः श्रीप्रद्युम्नम् सभा मध्ये कथयन्मकवा तदा शृणु राजन्महाबाहो त्वम् परावरवित्तमः लीलावधिनाम पुरीशुभा हे मादृशान्युषु विद्याधरेश सुकृति तत्र राज्यम् करोति हि तत्कन्या सुन्दरी नाम सद चन्द्र निभाशुभा आगता देवद सर्वास्तस्य राजन् स्वयंवरे लोकपालास्तद्धा सर्वे सम्प्राप्ता दिव्यविग्रहाः यम् दृष्ट्वा मूर्च्छिताकम् स्याम् समे भर्ता भविष्यति गिरेत्येवं प्रजल्पं भी सुन्दरं वरमिच्छति तत्रापि गच्छ सहसा भ्रातृभिः सह कौतुके स्वयं वरं पश्य वरं देवलोकैश्च मण्डितं श्रीनारद उवाच तच्छ्रुत्वा भगवान् पार्ष्णे यादवैर्भ्रातृभिः सह पुरन्दरेण सहसा पुरीं लीलावतीं ययौ विशालाजिरसंयुक्ते खजिद्रत्नमनोहरे चन्दनागुरुकस्तूरी कुङ्कुमद्रवश्चर्चिते मुक्तायुक्ताै स्तोरणैश्च विधानैः सुमहाधनैः जाम्बूनदासनैः साक्षादिन्द्रलोकैवापरे तस्मिन् स्वयंवरे तस्थौ प्रद्युम्नो दिव्य आसने गिरीशृङ्गे यथा सिंह सर्वेषां पश्यतां नृपा व्रजेशमुनयस्तत्र देव रुद्रगणस्तथा मरुदोरवह्यश्चैव वसवो ह्यग्नयोश्विनौ यमोधवरुण सोमो धनधः शक्र एव हि सिद्धा विद्याधराश्चैव अन्ये समागता सर्वे रत्नाभरणभूषिताः जकुर्वैवाहिकी माश्याम् प्रद्युम्नम् वीक्ष्य मैथिल सुरत्नमालया रतिम् जरम्भाम् क्षिपतीव निर्गता वा नीरमां रूपवदीम् पुलोमजाम् विडम्बयन्तीव बभौ वराङ्गना यां वीक्ष्य सर्वेषु सदत्सु सर्वतो मोहम् प्रयातेषु तथैव मैथिल श्री सर्वलोकस्य जपश्य दोवरम् विचिन्वति स चपलेव चाम्बुधम् प्रद्युम्नवीरम् नरलोगसुन्दरम् समेत्यमोच्चां समवापसुन्दरी विद्याधरी सा पुनरापसञ्ज्ञाम् समुद्धिता सात्वदहर्षविह्वला तस्थौ सुमालाम् विनिधाय तद्गले विद्याधरेश्च सुहृती च सुन्दरीम् सुगान्धदौ मैथिल शम्बरारये न दत्सु तुर्यषु तदैव निर्जरा न वीक्ष्य विवाहमङ्गलम् तम् सर्वदः संरुधुः प्रचण्डमेका इव भास्करम् परम् क्रोधा वृद्धांस्तानमरान् धनुर्धरान् मदोद्धरान् वीक्ष्य हरे स्वयम् वरम् श्रीकृष्णदत्तम् सशरम् धनुः स्वयम् वरम् तच्चापमुक्तायर्विशिखैः स्फुरत्प्रभैश्चिह्नायुधा मैथिलशीर्णकञ्जुका विदुद्रुवुस्तेज दिशो दशामरा निहारमेखा इव सूर्यरश्मिभिः प्रद्युम्नो भगवान् साक्षादिद्धम् जित्वा स्वयं वरम् विजित्येलावृतम् खण्डम् भारतम् गन्तुमुद्यतः भादृभिर्यदुभि सैन्यैः सर्व मन्त्रिजनैः सह आययौ भारदं खण्डं नादयन् जय दुन्दुभिन् पश्यन् देशाननेकांश्च जम्बूद्वीपजयो बलि आनर्तान् द्वारकान् प्राप्तो भूत्स हरे सुदः बुद्धिसत्तमः प्रणनामोऽग्रसयनं तं सभायां श्रीहरिम् बलि वर्षे वर्षेऽपि यज्जादम् द्वीपजयम् तथा तत्सर्वम् हि यथा योग्यम् कथयाम स चोद्धवः श्रीकृष्णबलदेवाभ्याम् सर्वैर्वृद्धजनैः सह प्रद्युम्नम् तम् समानेदुमुग्रसेनो विनिर्गदः गीतमादित्रघोषेण ब्रह्मघोषेण भूयस मुक्तावर्षैर्जपुष्पैः पाठारावै वारणेन्द्रम् पुरस्कृत्य सौवर्णैः कलशैर्नृपा गन्धर्वैर्वरमुख्याभिशङ्कुदुन्दुभिवेणुभिः गन्धाक्षतैर्केमपात्रैः पुष्पधूपैर्यवाङ्गुरैः उग्रसेन शम्भरारे सम्मुखं चा षड्गम् नीत्वाग्रसेनस्य पुरोधृत्वा कृताञ्जलिः न नाम कार्षिणेर्यदुभिर्भ्रातृभिः सह मैथिल श्रीकृष्णम् सबलम् सा नत्वा सर्वान् वृद्धान् प्रणम्यज गर्गाचार्यम् ननामाशुप्रद्युम् नो मी आरोप्य र्ष्णी मुग्रसेन पुरीं ययौ मङ्गलम् द्वारकायां च सर्वत्रा भूत् गृहे गृहे युद्धम् नृपते कथितम् किम्भूय श्रोतुमिच्छसि यदि श्रीगर्गसंहितायाम् श्रीविश्वजित्कण्डे श्रीनारदबहुलशसंवादे प्रद्युम्न द्वारकागमनम् नामाष्टचत्वारिंशोऽध्यायः ओम् अध्यायम् 49 नैन् बहुलाश्व उवाच कथम् चकार विधिवद्राजसूयाध्वरम् नृपः यदन्मे विप्रेन्द्र त्वम् परावर वित्तमः श्रीनारद उवाच अधोग्रसेनो नृपतिः सर्वधर्मभृदाम्बरः श्रीकृष्णेन सहायेन क्रदुराजम् चकारः गर्गाद्यदुकुलाचार्यान् मुहूर्तम् बोध्ययत्नदः यत्नदः बन्धुभ्य प्रददौ राजन् सुहृद्भ्योऽपि निमन्त्रणम् भक्त्या परमयाहुदा ऋषयो मुनयो द्विजाः आजग्मुर्द्वारकाम् समावृताः वेदव्यासुखसाक्षान् मैत्रेयोध पराशरः पैलसुमन्तुर्दुर्वास वैशम्पायन इत्यपि जैमिनिर्भार्गवो रामो दत्तात्रेयोसिदो मुनिः अंगिरावामदेवो वाम देवोत्रेर्वसिष्ठकण्वज विश्वामित्रसदानन्दो भरद्वाजोध गौधमः कपिलसनकाद्याश्च विभाण्डश्च पतञ्जलिः द्रोणकृपत्राड्विपाग ण्डिल्यो मुनिसत्तमः अन्ये च मुनयो राजन् सशिष्याश्च समागताः ब्रह्मा शिवो जम्भवेदी देवा रुद्रगणस्तधा आदित्यामरुद सर्वे वसवो यग्नयोश्वि नौ यमोदवरुणसोमोधनदो गणनायकः सिद्धा विद्याधराश्चैव गन्धर्वाकिन्नरादयः गन्धर्वाप्सरसर्वा विद्या ध्यः समागताः वेदालादानव दैत्या प्रह्लादो बलिना रक्षो रक्षोभिर्भीषणैः सार्धं गङ्गाधीशो विभीषणः सर्वैश्च वानरैः सार्धं हनुमान् वायुनन्दनः वृक्षैश्च दृष्टिभिः सार्धं जाम् भवान् वृक्षराड् सर्व पक्षि साधं गरु पक्षिराड्बल सर्व सरित साधम वा सुखराड्बलि गोरूपतारिणी पृथ्वी सर्वा भी कम धेनु शैलूर्तिम्भि सुमेरु हिमाचल गुलम वृक्षलता बड़ साक्षा प्रयागराड महानदी बिसखिता श्रीगङ्गा यमुना नदी पारा वारासप्त तधारत्नोपायनसंयुधाः हा जगमोरुग्रसेनस्य राजसूयस्य चध्वरे सप्तस्वराश्रयो ग्रामा नवारण्या चतुर्दशैव गुह्यानि विख्यातानि महीदले तीर्थराजप्रयागश्च पुष्पकर् पुष्करम् भद्रिकाश्रमः सिद्धाश्रमो विनशनम् कुण्डै सर्वैः सरोवरैः वनानि दण्डकादीनि सर्वैश्चोपवनैः सह क्षेत्रै समग्रैर्विमलैरेदे तत्र समययुः श्रीमद्गोवर्धनो नाम गिरिराजो वृन्दावनव्रजवनैः सरक्कुण्ठैः समाययौ कीर्तिर्यशोमधिसाक्षाद्गोपीभिर्गोपीकेश्वरी श्रीराधा शिपिकाजूटा सखि शङ्खैः सखो ढिभिः सदयुधश्च गोपीनां द्वारकां प्रयौ मुदा तासां वासो यत्र यत्र गोपीभूमिश्च सा भवद तदङ्गराजः सञ्जातम् गोपीचन्दनमेव हि गोपीचन्दनलिप्ताङ्गो नरो नारायणो भवेद चतुर्वर्णास्तदा सर्वे आजक्मुस्तस्य चाध्वरे धृतराष्ट्रो बुद्धिचक्षुः साक्ष दुर्योधनकलिः शाल्यो भीष्मश्च कर्णश्च कुन्दी युधिष्ठिरः भीमार्जुना धनकुलसह दमघोषो वृद्धशर्मा जयसेनो महानृभः दृष्टके दुर्भीष्मकश्च नाग्नजित् कौशलेश्वरः बृहत्सेनो धृति साक्षान् मैथिलेश पितामहः अन्येऽपि तत्र राजानक सुकृत्सम्बन्धिबान्धवाः सह स्त्रीभिस्तथा पौत्रे पुत्रैराजग्मुरध्वरम् यदि श्रीगर्गसंहितायाम् श्रीविश्वजिद्दण्डे श्रीनारदबहुलाश्वसंवादे स्वजननिमन्त्रणम् नाम मयि कोन पञ्चाशत्तमोऽध्यायः ओ अध्यायम् फिफ्टि श्रीनारद उवाच अर्धसिद्धेरिवद्वारे रैवताद्रिसमुद्रयोः मध्ये पिण्डारके क्षेत्रे यज्ञारम्भो बभूवः पञ्चयोजनविस्तीर्णकुण्डो भूद्यस्य च ध्वरे योजनम् ब्रह्मकुण्डस्तु गव्योधिपञ्चकुण्डकाः मेखलागर्त विस्तारवेदीभिनिर्मिता शुभाः सहस्रहस्तमुच्चाङ्गो यज्ञस्तम्भो बभौ महान् पञ्चयोजनविस्तीर्णसौवर्णो यज्ञमण्डपः वितानतोरणिरजे कदलीखण्डमण्डितः भोजभृष्ण्यन्धकमधुशूरसेन दशार्हकैः देवैश्च सखिदो राजा बभौ शक्रयुवाध्वरे यज्ञावतार श्रीकृष्णपरिपूर्णतमोऽध्वरे बभौ पुत्रैश्च पौत्रैश्च परमात्मेव भूदिभिः महासम्भृतसम्भारे राजसूयेध्वरे वरे गर्गाचार्यम् गुरुम् कृत्वा यदुराजो हि दीक्षितः ओतारो दशलक्षाणि दशलक्षानी, दशलक्षानी दीक्षिताः अध्वर्यव पञ्चलक्ष मुद्गातारस्तथा वरे अस्ति शुण्डा समाधार हुदाशनः अजीर्णम् प्राप्य तद्यज्ञचित्रं विभुतमैधिला केऽपि जीवस्त्रिलोक्यान्तु न बभूव बुभुक्षिताः सर्वे देवस्तु सोमेन ह्यजीर्णत्वमुपागताः रुचिमत्या धर्मपत्न्योऽग्रसेनो यदुराड्बलि अध्वरावभृधस्नानं तीर्थे ते पिण्डारके करोद व्यासाद्ययमुनिभिस्नादो विधिवद्वेदसूक्तिभिः यथा दक्षिणया यज्ञो रुजिमत्या बभौ नृप देवदुन्दुभयो नेदु नरदुन्दुभयस्तथा उग्रसेनोपरि सुरा पुष्पवर्षं प्रचक्रिरे गजानां हेमभाराणां नियुतानि च दुर्दश शताद्बुदं हयानां तु यज्ञान्ते दक्षिणां पराम् कोडिशो नवरत्नानाम् महाहाराम्बरैः सह गर्गाचार्याय मुनये गृहोपस्करसंयुधाम् उग्रसेनो ददौ राजा या धवेन्द्रो महामनः गजानाम् तत्र साहस्रम् हयानामयुधम् तथा विंशद्भारम् सुवर्णानाम् ब्राह्मणे ब्राह्मणे दधौ मरुतस्य महायज्ञे त्यक्तपात्रा यथा द्विजाः ततोग्रसेनस्य कृतौ गदाः सन्तुष्टा देवता सर्वा प्राप्तभाग दिवम् गदाः भूरिद्रव्या वन्दिनश्च जयरावा गृहम् गदाः रक्षोदैत्या वानरश्च दंशिणपक्षिणस्तथा नागा सन्तुष्टमनस सर्वेष्वं स्वम् गृहं ययुः गा भा शैला वृक्षसङ्घा नद्य तीर्थाश्च सिन्धवः सन्तुष्टा प्राप्तभागा ये ते सर्वेष्वम् गृहं ययुः राजानो ये समाहूता पारिबर्हेण पूजिता दानमानाभ्याम् तेऽपि स्वम् स्वम् गृहम् गताः नन्दाभ्या गोपमुख्या ये श्रीकृष्णेन प्रपूजिताः हर्षिता प्रेमदानाभ्याम् तेऽपि सर्वे व्रजं ययुः यदते कथितम् राजन्महायज्ञस्य मण्डलम् यत्र श्रीकृष्णचन्द्रोऽस्ति तत्र किं सबलं न हि ये शृण्वन्ति कथामेधम् पठन्ति सततं नरः धर्मश्चार्थश्च कामश्च मोक्षस्तेषाम् प्रजायदे पूर्णपरश परमेश्वरप्रभुः पुनः पुनादु वो ह्यः पुरुषपुराणः शृण्वन्ति ये तस्य कथाम् विचित्राम् कुर्वन्ति तीर्थम् स्वकुलम् नरास्ते चलेन यज्ञस्य हरिपरेश्वरो भारं विदेहेश भुवोवतारयद यो भूच दुर्व्यूहधरो यथोकुले तस्मै नमो नन्दगुणाय भूभृधे इति श्री श्रीविश्वजित्खण्डे श्रीनारदबहुलाश्वसंवादे राजतोययज्ञोत्सवर्णनं नाम पञ्चाशत् तमोऽध्यायः ॐ